श्रीमद्भागवहाण नमो भगवते वासुदेवाय श्रीमद्भागवत महात्म्यम अथ प्रथमोध्याय परीक्षित और वज्रनाभ का समागम शांडिल्य मुनि के मुख से भगवान की लीला के रहस्य और ब्रज ब्रजभूमि के महत्व का वर्णन व्यासुवाच श्रीसच्चिदानन्दघनस्वरूपिणे कृष्णाय चानन्तसुखाभिवर्षिणे विश्वोद्भवस्थाननिरोधहेतवे नमो वयं भक्तिरसाप्तये निशं नैमिषे सुतमासीनमभिवाद्य महामतिं कथामृतरसस्वादकुशला ऋषयो ब्रुवन् ऋषय उचुः वज्रं श्रीमाथुरेदेशे स्वपत्पौत्रं हस्तिनापुरे अभिषिच्य गते राज्ञी तौ कथं किं च चक्रतुः श्रुत्वाच नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं यासं ततो जयम जयमुदीरयेत् महापथं गते राज्ञी परीक्षितपृथिवीपतिः जगां वथुरां विप्रा वज्रनाभादि दीक्षयां पितृव्यमागतं ज्ञात्वा वज्रप्रेम परिप्लुतः अभिगम्याभिवाद्याथ निनाय निजमन्दिरं परिष्वज्य शतं वीरकृष्णैकगतमानसः रोहिण्याद्या हरे पत्नीर्वयतनागतः ताभिः सम्मानितोऽर्थं त्यर्थं परीक्षितपृथिवीपतिः विश्रान्तसुखमासीनो वज्रणाभमुवाच परीक्षि उवाच तात त्वत्पितृभिर्नूनम् अस्मत्पितृ पितामहः उद्धृता भूरि दुःखौ भादहं च परिरक्षितः न पारयाम्यहं तात् साधुकृत्वोपकारतः त्वामत प्रार्थयाम्यङ्गसुखं राज्ये नियुज्यताम् कोशसैन्यादिजा चिन्ता तथा रिदमनादिजां मनागपि न कार्या ते सुसेव्या किन्तु मातरः निवेद्य मयि कर्तव्यं सर्वाधिपविं रिवर्जनम् श्रुत्वयि तत्परं प्रीतो वज्रसम्प्रत्युवाच वज्रणाभुवाच राजन्नु चित्तमेतत्ते यदस्मासु प्रभाससे त्वत्पित्रोपकृतश्चाहं धनुर्विद्या प्रसा तस्मान्ना तस्मान्नाल्पापि मे चिन्ता छात्रम् दृढमुपेयुष किन्त्वेका परमा चिन्ता तत्र किञ्चिद्विचार्यताम् माथुरे तभिषिक्तोऽपि सितोऽहन् निर्जने वने क्व वै प्रजान्यत्या यत्र राज्यं प्ररोचते इत्युक्तो विष्णुरातस्तु नन्दादीनां पुरोहितं शाण्डिल्यमाजुभावाशु वज्रसन्देहनित्तये अथोटजं विहायाशु शाण्डिल्यसमुपागतः पूजितो वज्रनाभेन निसां निससादासनोत्तमे उपोद्घातं विष्णुरातस्य काराशु तत उवाच परं प्रीततावुभौ परिशान्तयन् शाण्डिल्य उवाच श्रुतं दत्तचित्तौ मे रहस्यं व्रज भूमिजम् व्रजनं व्याप्तिरित्युक्त्वा व्यापनाद् व्रजमुच्यते गुणासीतं परब्रह्म व्यापकम् व्रज उच्यते सदानन्दं परं ज्योतिर्मुक्तानां पदमव्ययम् तस्मिन्नन्दात्मज कृष्ण सदानन्दाङ्गविग्रह आत्मा रामश्चाप्तकामप्रेमाक्तैरनुभूयते आत्मातुराधिका तस्य तयैव रं रमणादसौ आत्मा रामतया प्राज्ञै प्रोच्यते गुणवेदिवी कस्मास्तु वाञ्छितास्तस्य गावो गोपास्य गोपिकाः नित्या सर्वे विहाराद्या आप्तकामतस्त्वमयम्